श्रीगणेशाय नमः श्रीगौरी शङ्कराभ्यां नमः अथ श्री शिवमहापुराणे विद्येश्वरसंहितायां सप्तमोऽध्यायः समरे शम्भुनलस्तम्भविष्कार ईश्वर उवाच स्वस्य का स्वस्ति वा वर्तते मम शासनात् जगच्च वंशे स्व स्वकर्मणि किं प्रागेव विदितं युद्धं ब्रह्मविष्णोर्मया सुराय भवतामतापेन पौनरुक्तेन भाषितम् इति सस्मि तया माध्या कुमारपरिभाषया समतोषदम्बाय स पथितरव्रजम् अथ युद्धाङ्गणम् गन्तुम् हरिधात्रो रजीश्वर अज्ञापय गणेशानां शतं तत्रैव संसदि ततो वाद्यं बहुविधं प्रयाणाय प्रेषितु गणेश्वराय सन्नद्धा नानावाहन भूषण प्रणवाकारमाद्यन्तम् पञ्चमण्डलमण्डितम् आरुरोह रसं भद्रम् अम्बिका पतिरीश्वर स सूनुगुणमिन्द्राध्या सर्वेऽपि अनुनय ययुसुर चित्र ध्वज भजन चामरपुष्पवर्ष सङ्गीतं नृत्यनिबहिरपि वाद्यवर्गे सम्मानितय पूजपति देव्या साकं तयो समरभूमि भगातु सैन्य समीक्षं निर्गोषे तयोर्युद्धं निगूढो भ्रं समासीत समाप्तवाद्य निर्घोष तथा पाशु च अत्र ज्वाल रथो दग्धम् ब्रह्म विष्णो जगत्रयम् ईशोऽपितं दीक्षाथ यकाले प्रलयम् वृशम् महानरस्तम्भ विभीषणाकृति बभूव तन्मध्यतले संस्कर तेऽत्रापि सज्जवाले लोकसंवरण निपेते तु क्षणेनैव याविर्भूते मानवे दृष्ट्वा तदद्भुतं चित्रम् अत्र शान्तिकरं शुभम् किमेतदद्भुताकारम् परस्परं। परस्परम् अतिन्द्रियमिदं स्तम्भम् अग्निरूपं किमुत्थितम् अशोधम् अपि चाधश्च अवयोर्लक्ष्यमेव हि इति व्यवस्थितौ वीरौ मिलितो वीरमानिनौ तत्परो तत्परीक्षार्थं प्रतस्थातेथवयो मिश्रयो तत्र कार्यम् एकं न सम्भवेत् इत्युक्त्वा सुकरस्तनू विष्णु तस्यादिमीवन् तथा ब्रह्माहम् असतनु तदन्तं वीक्षितुं ययो धृत्वा पातालनिलयं गत्वा दूरतरं हरिः नापश्च तस्य संस्थानं स्तम्भस्या नलवर्जत श्रान्तसुकरहरिः प्राप्य पूर्वं मृडाङ्गणम् अध गच्छन्तु व्योम्ना च विरिता पिता तव ददर्श केतके पुष्पम् किञ्चित् विच्यत मद्भुतम् अतिसौरभ्यमम्लानं बहुवर्ष च्युतं तथा अन्वीक्ष्य च तयो कृत्यं भगवान् परमेश्वरः परिहासं तु कृतवान् कम्पनाचलितं चिरः तस्मात् तावन् गृह्णातुत्तमं किं तं पतसि पुष्पे धृतः आदिमस्य प्रमेयस्य स्तम्भ्याच्युतिशिरं न सम्पश्यामि तस्मात्त्वं जय्या चामन्तदर्शने अस्यान्तस्य च तस्या सेवार्थं हंसमूर्ति आगतः इतः परं सखे मेद्य त्वया कर्तव्यमीप्सितं मया सह त्वया वाचम् एतद् विष्णु च सान्निधौ सम्भातो धात्रा तस्य साक्षा महत्यम् इत्युक्त्वा केतकं तत्र प्रणाव पुनः पुनः असत्यम् अपि शस्त्रं च आपदित्यनुशासनम् समीक्ष्य तत्र श्रमम् च्युतम् षण्डातवदयच्युतं हरे तत्रैव साक्षी ननुकेतकं त्रिदं ततो वद तत्रैकेतकं वृषय तथेति तद्धातुके तत्सत्यमित्येव चिन्तयन् चकार तस्मै विधये नमः स्वयं षोडजये उपचारै च पूजयामासीं विधिं प्राप्तुं शतमग्निलिङ्गत स ईश्वर तत्र बहुवसकृति समुत्थित स्वामि विलोकनापुर प्रकम्पपाणिः प्रभु परिगृह्य तत्परम् आद्यन्त हीनवपुषि त्वयि मोहबुद्ध्या भूयाद् विमर्शये नैव दिकामनोथ सीद करुणाकरकस्मरं नोष्टं क्षमस्वीतं भवत एव केल्या ईश्वरवात् वत्स प्रसन्नोऽपि हरे यतस्त ईश्व त्वमिच्छन्नपि सत्यवाक्यम् ब्रूया सदस्य भविता जनेषु साम्यं मया सत्कृतिरप्य लब्ध्वा इतः परं ते पृथगात्मनश्च क्षेत्रे प्रतिष्ठो पूजनं च इति देव पुराप्रीत सत्ये न हरे परम् ततो स्वसाम्य मत्यर्थम् देवसङ्घे च पश्यति इति श्री शिवमापुराणे विद्येश्वरसंहितायाम् अनलस्तम्भ विष्कारवर्णनं धाम्भ सप्तदशोऽध्यायः श्रीगौरी शङ्करार्पणमस्तु